श्रीमद्भागवत् महापुराणं चतुर्थस्कन्धात् विंशोऽध्यायः मैत्री उवाच भगवानपि वैकुण्ठसाकं मभवता विभू यज्ञै यज्ञपतिस्तुष्टो यज्ञभोक्तमसम्भाषत श्रीभगवानुवाच एष ते कारसिद्भग्नं हयमेधस तस्य समापयति आत्मानम् अमुष्य सन्तुमर्हसि साधवो लोके नर्देव नरोत्तमाः नाभिदृह्यन्ति भूतेभ्यो यर्हिनात्मा कलेवरं पुरुषा यदि मुह्यन्ति त्वादिशा देवमायया श्रम एव परं जातो दीर्घया वृद्धसेवया अतः कायमिवं विद्वान् अविद्या कामकर्मभिः आरब्ध इति नैवास्मिन् प्रतिबुद्धो नुसज्यते असंसक्तशरीरेऽस्मिन्नमुनोत्पादिते गृहे अपत्ये द्रविणे वापीक कुर्यान्मताम्बुध एकशुद्ध स्वयं ज्योतिर्निर्गुणोऽसौ गुणाश्रयः सर्वकोणापितसाक्षी निरात्मात्मात्मनः पर य संतमात्मानं सन्तमात्मानम् आत्मसंवेदपूरुष नाज्यते प्रकृतिस्थोऽपि तद्गुणैः स मयि निरासे श्रद्धयान्वितः भजते शनकैस्तस्य मनोराजन् प्रसीदति परित्यक्तगुणसम्यग्दर्शनो शान्तिं मे संवस्थानं ब्रह्म कैवल्यमश्नुसहि उदासीनं वाध्यक्षं द्रव्यज्ञानक्रियात्मनां कूटस्थमिमात्मानं यो वेदाप्नोति शोभनं भिन्नस्य लिङ्गस्य गुणप्रवाहो द्रव्यक्रियाकारकचेतनात्मनः दृष्टासु सम्पत्सु विपशु सूर्ययो न विक्रियन्ते मयि बद्धसौहृदाम् समसमानोत्तममध्यमाधमः सुखे च दुःखे च जितेन्द्रियाशय मयोपक्लिप्ताखिलोकसंयुतो विधस्वीराखिलोकरक्षणं श्रेयप्रजापालनमेव राज्ञो यस्सां पराये सुकृता सृष्टमंसम् हर्तान्यथा हृत्पुण्यप्रजाननाम् अरक्षिताकरहारोघमती एवं द्विजग्रानुमतानुवृत्तधर्मप्रधानोऽन्यतमो विता स्याः तत्त्वेन कालेन गृहोपयातान् द्रष्टासि सिद्धान्नुरक्तलोकः वरं च मत्कञ्चन मानवीन्द्रविष्णेश्वतेऽहं गुणशीलयन्त्रितः नाहं मकैवैः सुलभस्तपोऽभि योगेन वाय समचित्रपार्थी मैत्रे उवाच सा इत्थं लोकगुरुणा विश्वक्सेन विश्वजे अनुशासित आदेशं शिरसा जगृहे हरे विश्वसन्तं पादयो प्रेम्णा पीडितं देश्वेन कर्मणा सतक्रतुं परिसृज्य विद्वेषं विससर्जः भगवान् च विश्वात्मा पृथनोपसितार्हणः समुज्जिहानया भक्त्या गृहीतचरणाम्बुजः तस्थानाभिमुखोपीनम् अनुग्रह विलम्बितः पश्यन् पद्मपुलासाक्षू न प्रतस्थे श्रृहृसत्तमां श्रीस्तताम् सा आदिराजो रचिताञ्जलिर्हरिं विलोकितं नासकदश्रुलोचन न ना किञ्चनोवाच सवाश्वविक्लवो हृदोपगुह्यां मुमं धादवस्थितः तथा वमृद्या शुकला विलोकयन्नप्तदिग्गोचरमाहपूरुषं पदास्वसन्तं चितिमंसमुन्नते विन्यस्तहस्ताग्रमुरङ्गविद्विष त्रिसुरुवाच वरान् विभो त्वद्वरदेश्वराद्बुधकथं वृणीते गुणविक्रियात्मनां ये नारकारणामपि सन्ति तानि स कैवल्यपते वृणेन च न कामयेनाथ तदभ्यहं क्वचिन्न यत्र युष्मज्जरणां बुजाशवः महत्तमान्तर्षदियान्मुखच्युतोविधस्वकरणायुतमेषरः स उत्तमश्लोकमहन्मुखच्युतो भवत्पदाम् भोजसुधाकणानिलः स्मृतिं पुनर्विस्मृतं तत्त्ववर्त्मनां कुयोगिनाम् नो वितरत्यलम्बरैः यशिवं शस्रवार्यसङ्गमे यदीक्षया चोपशुणोति ते सकृ कथं गुणज्ञो विरमेद्विना पशुं श्री यत्प्रभुरे गुणसङ्ग्रहेख्यया अथा भजे त्वाखिलपुरुषोत्तमं गुणालयं पद्मकरेवलालसा अप्याययोरेकपतिस्पृधोकलीर्णं स्यात् यद्वच्चरणैकतानयोः जगज्जनन्यां जगदीशवैशसं स्यादेव यत्कर्मणि न समीहितम् करोसि फल्वं प्युरुं दीनवत्सर स्व एव धिष्णयेभिरतस्य चिन्तया भजन्त्यत त्वामत एव साधवो विदस्तमाया गुणविभ्रमोदयम् भवत्पदानुस्मरणादिते सतां निमित्तमन्यद्भगवन्न विद्महे मन्ये गिरं ते जगतां विमोहिनीं वरं मृणी स्वेति भजन्तमातयत् वाचानुतन्त्य जनो जन ते जनोऽसितः कथं पुनः कर्म करोति मोहित त्वन्माययाद्धा जन ईश खण्डितो यदन्यदासाश्रितात्मनो बुधा यथा च ऋद्वालहितं पिता तथा तमेवार्हसि समीहितुं न ते वाच इत्यादिराजेन नृतसविस्वद्रिं तमाह राजन्मयि दिष्टे तिशीधिर्मयिते कृता यया मायां मदीयां तत्त्वं कुरु मयादिश अप्रमत्त प्रजापते मदादेशकरो लोक सर्वत्राप्नोति शोभनम् मैत्री इति वैन्यस्य राजर्षे प्रतिनद्यार्थतद्वचः पूजितोऽनुगृहीत्वैनं गन्तुं चक्रे च्युतो मतिम् देवर्षिप्रत्यगन्धर्वसिद्धचारणपन्नगाः किन्नराप्सरसो मर्त्याखगाभूताञ्जलेकशः यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः सभाजिताययौ सर्वे वैकुण्ठानुगतास्ततः भगवानपि राजर्षेषोपाध्यायस्य चाच्युतः हरण्योमलोमुस्य स्वधाम प्रत्यपद्यतम् अधिष्ठाय नमस्कृत्य नृपसन्दर्शितात्मने अव्यक्ताय च देवानां देवाय स्वपुरं ययौ इति श्रीमद्भागवते महापुराणे प्रंचां चैतायां